मकंडेयपुराणम अध्या 31 मदा लोवाच स पिंडीकरण्व पिद प्रम सभुज यदि प्रलुप पितृपिंडा मनुर्धो युत्रेपुजन भुक् सोऽपि सम्बन्धतो हीनमुपभोगं प्रपद्यते पिता पितामहश्चैव तथैव प्रपितामहः पिण्डः सम्बन्धिनो ह्यदे विज्ञेयाः पुरुषास्त्रयः पितामहाद प्रभृत्युक्तास्त्रयस्तेषां यजमानश्च सप्तमः इत्येष मुनभिः प्रोक्तः सम्बन्धः साप्तपौरुषः यजमानात् प्रभृत्यूर्ध्वं मनुलेप भुजस्तथा तदोन्ये पूर्वजाः सर्वे ये चान्ये नरकौकसः ये च तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः तान् सर्वान् यजमानो वै श्राद्धं कुर्वन् यथाविधि समाप्याय यदेवत्स येन येन शृणुष्व अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः यदम्भुस्त्रा न वस्त्रोद्धं भूमौ पतति पुत्रक तेन ये तरुदां प्राप्तास्तेषां तृप्तिः यास्तु बूकलेप्यायन ते दुले गृतेथ ये याुवि तप्यायनम्ताकुले ग ये दग्धाकुले क्रिया योग्या ह्यंस्कृतापन्नासनजलाशिन भुक्ता चाचा मद यसे यच्चा ब्राह्मण तथा वन तेन तृप्तिम् प्रयान्ति वै एवं यो यजमानस्य यश्च तेषां द्विजन्मनां कश्चित् जलान्न विक्षेपश्युचिरुच्छिष्ट एव वा तेनान्येतत्कुले तत्र तत्तद्योऽन्यन्तरं गताः प्रयां द्याप्यायनं सम्यक् श्राद्धक्रियावताम् अन्ययोपार्जितैरर्थैर्यच्छ्राद्धं क्रियते नरैः तृप्यन्ते तेन चाण्डालपुक्साध्यासु योनिषु एवमाप्यायनं वत्स बहूनामिह बान्धवैः श्राद्धं कुर्वदि भरन्नाम्बो विन्दुक्षेपेण जायते तस्माच्छ्राद्धं नरो भक्र्या शाकैरपि यथा विधि कुर्वोद कुर्वदश्राद्धं कुले कश्चिन्न शीदति तस्य कालानहं वक्ष्ये नित्यनैमित्तिकात्मकान् विधि ये नरिक्रीय तन्न बोध मे कार्य श्राद्धम मासी म्युपक्ष तथाष्टप्यवश्यच्छा कालम निबोध मे विशिष्ट्राह्मण प्राप्त सूर्य ग्रहणेय विशुवे रविसङ्क्रान्तौ व्यधिपादे च पुत्रक श्राद्धार्हद्रव्यसम्प्राप्तौ तथा दुःस्वप्नदर्शने जन्मर्क्षग्रहपीडासु श्राद्धं कुर्वोद चेच्छया विशिष्ट श्रोत्रियो योगी वेद दौहित्र विज्येष्टसामगः त्रिनाचिकेदस्त्रिमधुस्त्रिसुपर्णषडङ्गविदौहित्र हृत्विग्जामादृस्वस्त्रियाश्वशुरस्तथा पञ्चाग्निकर्मनिष्ठश्च तपोनिष्टोऽध मातुलः मादा पितृपराश्चैव शिष्यसम्बन्धिबान्धवाः यदे द्विजोत्तमाश्राद्धे समस्ता खेदनक्षमाः अवकीर्णोत्तदारोगी न्यूने चांगे तथाधिके पौनर्भवस्तथा काह्कुण्डो गोलोधपुत्रः मित्रधृक्कुनकी क्लीबश्यावदन्तो निराकृतिः अभिशस्तस्तु तादेन पिशुनः सोमविक्रयी कन्यादूषयिदवैद्यो भृतकाध्यापको मित्रः परपूर्वापदिस्तथा वेदोच्छोदाग्निसन्ध्यागी वृषलीपदि दूषितः तदान्ये विकर्मस्था वर्ज्याः पित्र्येषु वै निमन्त्रयेद पूर्वेद्युस्त पूर्वोक्तान् द्विजसत्तमान् दैवे नियोगे पित्र्ये च तां तथैवोपकल्पयेत् तैश्च संयदिभिर्भाव्यं यश्च श्राद्धं करिष्यति श्राद्धं दत्त्वा च भुक्त्वा पितरस्तु तयोर्मासं तस्मिन् रेदसि शेरथे गत्वा च योषितं श्राद्धे यो भुङ्क्ते यश्च गच्छति रेदो मूत्र पितरस्तयोहो पितरस्तयोः तस्मात्तु प्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम् अप्राप्तौ तद्दिने चापि वर्ज्यायोषित्प्रसङ्गिनः भिक्षार्थमागतान्वापि काले संयमिनो यतीन् भो जयेत् प्रणिपाताद्यै प्रासाद्य यतमानसः यथैव शुक्लपक्षाद्वै पितृणामसिदः प्रियः तथा पराह्नः पूर्वाह्नात् पितॄणामधिरित्यते सम्पूज्य स्वकदेनैदानभ्युपेतान् गृहे द्विजान् पवित्रपाणिराचान्दानासनेषुपवेशयत् वितृणामयुजकामं युक्मान् दैवे द्विजोत्तमान् एकैकं वा पितॄणां च देवानां च स्वशक्रिदः तथा मादामहानां च तुल्यं वा वैश्वदेविकं पृथक्तयोस्तथा चान्ये केचिदिच्छन्ति मानवाः दुदं मुखान्दा मुखान् तदैव मादा मदिक्तो मनीषि विष्टराे विष्टरार्थे दत्वा पूज्यचाध्यादिना बुधः पवित्रकादि दवा तेभ्यो तेभ्योऽनुज्ञामवाप्य च कुल्यादावाहनं प्राज्ञो देवानां मन्द्रदो द्विजः यवाम्भोभिस्तथा चार्घ्यं दत्त्वा वै वैश्वदेविकं गन्धमाल्याम्बुधूपञ्च दत्त्वा सम्यक् स दीपकम् अपसव्यं पितॄणां च सर्वमेवोपकल्पयेत् दर्भांश्च तेभ्यो दत्त्वा तेभ्योऽनुज्ञामवाप्य च मन्त्रपूर्वं कुर्यादावाहनं बुधः अपसव्यं तथाचार्ख्यं चार्घ्यं च तथा महाभाग निष्पादयेन्महाभागपितृणं प्रीणनेरतः अग्नौ कार्यमनुज्ञाधुरुष्वेदि ततो द्विजैः जुहुयाद्व्यञ्जनक्षारवर्ज्यमन्नं यथा अग्नये कव्यवाहायस्वहेदिप्रथमाहुतिः सोमाय वै पितृमते स्वाहेत्यन्या तथा भवेद् यमायप्रेतपतये स्वाहेदित्रितयाहुतिः हुदावशिष्टं दत्या च भाजनेषु द्विजन्मनां भाजनालम्भनं कृत्वा दद्याच्छान्नं यथा विधि यथा सुखं जुषध्वम्भो यदि वाच्यमनिष्ठुरं भुञ्जीरंश्च तदस्तेऽपि तच्चित्ता मौनिनः सुखं यद्यदिष्टशतमम् तेषां तत्तदन्नमसत्वरम् अक्रुध्यंश्च नरो दद्यात्सम्भवेन प्रलोभयन् रक्षोक्रांश्च जपेन्मन्त्रां स्थिलैश्च विकिरेन्महीं सिद्धार्थकैश्च रक्षार्थं श्राद्धं हि प्रचुरच्छलं पृष्टैस्तृप्तैश्च तृप्तास्त तृप्तास्म इति वादिभिः अनुज्ञादो नरस्त्वन्नं प्रकिरेद्भुवि सर्वतः तद्वदाचमनार्थाय दद्यातापः सहृत्सहृत् अनुज्ञां च तदः प्राप्य यदवाकायमानसः सतिलेन तदोऽन्येन पिण्डान् सव्येन पुत्रकपिदनुद्दिश्य दर्भेषु दद्यादुच्छिष्टसन्निधौ पितृतीर्थेन तोयं च दद्यात्तेभ्यः समाहितः पितृनिद्दिश्य यद्भग्र्या यजमानो नृपात्मजा तद्वन्मादामहानाञ्च दत्त्वा पिण्डान् यथाविधि गन्धमाल्यादिसंयुक्तं दद्यादाचमनं तदः दत्वा च तक्षिणां शक्रिया सुस्वधास्त्विदि तान् वदेद् तैश्च तुष्टैस्तथेत्युक्त्वा वाचये प्रियन्दामिति भद्रं वो विश्वेदेवा इति जयेन् तथेधि चोक्तेत्तैर्विप्रायः प्रार्थनीयास्तदाशिषः विसर्जयेत् प्रियाण्युक्त्वा प्रणिपत्यजभकृतः आद्वारमनुगच्छेच्छा गच्छेच्छानुप्रमोदितः ततो नित्यक्रियां कुर्याद् भोजये च तथातिथीन् नित्यक्रियां पितॄणां च केचिदिच्छन्ति सतमाः न पितृणान्तधैवान्ये शेषं पूर्ववदाचरेद् पृथक्पाकेन नेत्यन्ये केचित्पूर्वञ्च पूर्ववद ततस्तदन्नं भुञ्जीद सः भृत्यादिभिर्नरः एवं कुर्वोदधर्मज्ञश्राद्धं पित्र्यं समाहितः यथा वा परितोषोऽभिजायते त्रीणि श्राद्धे पवित्राणि दौहित्रं कुतपस्थिलाः वर्ज्यानि चाकुर्विप्रेन्द्र कोपोध्वगमनं त्वरा राजतञ्च तथा पात्रं शस्त्रं श्राद्धेषु पुत्रक रचतस्य तथा दर्शनं दानमेव वा रचते हि स्वधा दुग्धा पितृभिः श्रूयते मही तस्मात् पितॄणां रजदमभिष्टं प्रीतिवर्धनम् इति श्रीमार्कण्डेयपुराणे लर्कानुशासने पावन कल्पो नाम शोध्याय है